श्रीदुर्गामानसपूजाम् उद्यच्चन्दनकुङ्कुमारुणपयोधराभिराप्लावितां लालानर्घमणिप्रवालघटितां दत्तां गृहाणाम्बिके सुरसुन्दरे सुरसुन्दरेभिरभितो हस्ताम्बुदेर्भक्तितो मातसुन्दरी भक्तकल्पलतिके श्रीपादुका मादरा देवेन्द्राविरचितं चिरगणै राधासिंहासनं संचया विरचितम् चारुप्रभास्वरम् एतत् चम्पककेतके परमलं तैलं महानिर्मलं गन्धोर्द्वर्तनमादरे च तरुणे दत्तं गृहाणाम्बिके पञ्चादेवि गृहाणशम्बुक्रीडे श्रीसुन्दरी प्रायशो गन्धद्रव्यसमूहनिर्भरतरं धात्रीफलं निर्मलं तद्केषान् परिशोजकङ्कतिकया मन्दारकिणी स्तोतसे ना हे सुन्दरि त्वन्मुदे सुराधेपतिकामनीकरसरोजनालेखितां सचन्दनशङ्कुपम् कुङ्कुमागुरुभरे विभ्राजितां महापरिमलोज्वलां सरसशुद्धकस्तूरिकां गृहाणवरदायिने त्रिपुरसुन्दरी श्रीपदे गन्धर्वामरकिन्नरप्रियतमासन्तानहस्ताम्बुज प्रस्तारये झियमाणमुत्तमतरं काश्मीरजापिञ्जरं मातर्भास्वरभानुमण्डलसन् कान्ते प्रदानोज्ज्वलम् चैत्यनिर्मलमातनोतु वचनं श्रीसुन्दरी तन्मुदं स्वर्णाकल्पितकङ्गुलकुण्डले श्रुतयुगे हस्ताम्बुजे मुद्रिका मध्ये सारसना नित्यम्बफलके मञ्जीरमभ्रेद्वये आरो वक्षसि कङ्कणौ कर पुणरणाकारौ करद्वन्द्वके विन्यस्तं मुकुटं शिरस्य निदिनं दत्तोन्मदं स्तूयतां ग्रीवायां दृतकान्तिकान्तपटलं ग्रैवेयकं सुन्दरम् सिन्दूरं विलसल्ललाटफलके सौन्दर्यमुद्रादरं राजयत्कञ्जलमुज्ज्वलोत्पलदलश्रीमोचने लोचने तद्दिव्यौ सरिनिर्मितं रचयतु श्रीसाम्भवी श्रीपदे अमन्दत्तरमन्दरोर्मथित दुग्धसिन्धूद्भवं निसाकरकपुकरोपमं त्रिपुरसुन्दरी श्रीपदे गृहाडमुखमिक्षितुं मुकुलं बिम्बमावेद्रुमयी विनिर्मितमगच्छिदे प्रतिकराम्बुजस्थायिनम् कस्तूरी द्रवचन्दना गुरुसुधा धाराभिप्लाप्लावितं चञ्च चम्पकपाटलादिसुरभिद्रिव्यद्रव्यै सुगन्धीकृतं देव श्रीगणमस्तकश्चितमहारत्नादिकुम्भप्रजै रम्भ साम्भवि सम्भ्रमेण विमलं दत्तं गृहाणाम्बिके जाख्यावली मालती। मल्ली कैरवकेतकादिकुसुमयी रत्नासमारादि पुस्तैः माल्यभरेडवैसुरपिणा नानासहस्रोतसां ताम्रां भोजनिवासिनीं भगवती श्रीचण्डिकां पूजये मांसि गुङ्गुलुचन्दना गुरुरजः कर्पूरशले जयै माथ्वीकै सह कुङ्कुमै सुरचितै। सर्पेभिरामि स्त्रितये सौरभ्य स्थितिमन्दिरं मणिमये पात्रे भवेत् प्रीतये धूपोऽयं सुरकामने विरचितः श्रीचण्डिकेतन्मुदे कृतद्रवपरे स्फुरद्रुतिरत्नयष्ट्याण्डितो महातिमिरनाशनः सुरनितम्बीनिर्मितः सुवर्ण च कस्थितः सगणसारवर्त्यान्वितः तव त्रिपुरसुन्दरी पुरति देवी दीपो मुरे जातिसौरभनिर्भरं रुचिकरं शाल्योदनं निर्मलं युक्तम् हिङ्गुमरी च धीरसुरभिद्रव्यान्वितैर्व्यञ्जनैः पक्वाण्डेन स पायसेन मधुना दध्याज्य सम्मिश्रितं नैवेद्यं सुरकामिनी विरचितं श्रीचण्डिके त्वन्मुरे लवङ्गकलिकोज्ज्वलं बहुलना ल्लीदलं संसजातिपलकोमलं सगणसारपूगीपलं सुधाम्बुरमिक्माकुलं रुचिरत्नपात्र स्थितं गृहाडमुखपङ्कजे हुरितमम्ब ताम्बूलकं सरप्रभवचन्द्रमः गलस्तुरतर स्फुरतचन्द्रिका सुन्दरं गलस्तुरतरङ्गिलीलितमोऽपि काडम्बरं गृहाळनवकाञ्चनप्रभवदण्डखण्डोज्ज्वलं महातृपुरसुन्दरी प्रकटमातपत्रं महत् मातस्त्वमुदमातरोतु त्रिभि सदान्दोलितं शुभ्रं चामरनिन्दुकुन्दसदृशं प्रस्वेददुःखापहं सद्योगस्तवसिष्ठनारदसुख्यासादिवाल्मीकिवि त्वे चित्रे प्रियमाणयैव कुरुतां सर्वाणि वेदध्वनि स्वर्गाङ्गणे वेणुमृदङ्गशङ्कवीरी निनादैरुपगीयमानां कोलाफलैराकलिता तवात् विद्याधरि नित्यकलासुखाय देवी भक्तिरस्वभावत्यवृते प्रियतां यदि कुतोऽपि लभ्यते तत्र लोल्य किमपि सल्फलमेकं जन्मकोटिभिरपि हि न लभ्यम् एतैः यपराम देवतां स्तौति स तेषां फलमाप्नुया ॐ श्रीदुर्गादेव्यै नम